अथ द्विषष्टितमः सर्गः शुनःशेपम् नर श्रेष्ठगृही वातु महायशाः व्यश्रमत्पुष्करे राजा मध्याह्ने रघुनन्दना तस्य विश्रममाणस्य शुनः शेपो महायशाः पुष्करम् ज्येष्ठमागम्य विश्वामित्रम् ददर्शः तप्यन्तमृषभ्यः सार्धम् परमातुरः विषण्णवदनोदीनस्तृष्णयाच श्रमेण च पपाताङ्के मुने रामवाक्यम् चेदमुवाचः न मेऽस्ति माता न ज्ञातयो बान्धवाः कुतः त्रातुमर्हसि माम् सौम्यधर्मेण मुनिपुङ्गवा त्राता त्वम् हि नरश्रेष्ठ सर्वेषाम् त्वम् हि भावनः राजा च कृतकार्य दीर्घायुरव्ययः स्वर्गलोकमुपाश्नीयाम् तपस्तत्त्वाह्यनुत्तमम् समेनाथो ह्यनाथस्य भव भव्येन चेतसा पितेव पुत्रम् धर्मात्मम् स्त्रातुमर्हसि किल्बिषात् तस्य तद्वचनम् श्रुत्वा विश्वामित्रो महातपाः सान्त्वयित्वा बहुविधम् पुत्रानिदमुवाचः यत्कृतेऽपितरः पुत्रान् जनयन्ति शुभार्थिनः परलोकहितार्थाय तस्य कालोऽयमागतः अयम् मुनिसितो बालो मत्तः शरणमिच्छति अस्य जीवितमात्रेण प्रियम् कुरुत सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत नाथवांश्च शु नक्षेपो भवेत् देवतास्तर्पिताश्च स्युर्मम चापि कृतम् वचः मुनेस्तद्वचनम् श्रुत्वा मधुच्छन्दादयः सुताः साभिमानम् नरः श्रेष्ठसलीलमिदमब्रुवन् कथमात्मसुतान् हित्वात्रायसेन्यसुतम् विभो अकार्यमिव पश्याम श्व माम् समिव भोजने तद्वचनम् श्रुत्वा पुत्राणाम् मुनिपुङ्गवः क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे निःसाध्वसमिदम् प्रोक्तम् धर्मादपि विगर्हितम् अतिक्रम्य तु मद्वाक्यम् दारुणम् रोमहर्षणम् शमांसभोजिनः सर्वे वासिष्ठा पूर्णम् वर्षसहस्रम् तु पृथिव्यामनुवत्स्यथा कृत्वा शापसमायुक्तान् पुत्रान्मुनिवरस्तदा शुनः शेपमुवाचार्तम् कृत्वा रक्षान्निरामया पवित्रपाशैराबद्धो रक्तमाल्यानुलेपनः वैष्णवङ्ग्योपमासाद्यवाग्भिरग्निमुदाहर इमे च गाथे द्वे दिव्ये गायेथा मुनिपुत्रका अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि शृलशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः त्वरया राजसिंहमहाबुद्धे शीघ्रम् गच्छावहे वयम् तद्वाक्यमृषपुत्रस्य श्रुत्वा हर्षसमन्वितः जगामनृपतिः शीघ्रम् यज्ञवाटमतन्द्रितः सदस्यानुमते राजा पवित्रकृतलक्षणं पशुम् रक्ताम्बरम् कृत्वा यूपेतम् समबन्धयत् सबद्धो वाग्भिरग्र्याभिरभितुष्टाववैसुरौ इन्द्रमिन्द्रानुजम् चैव यथा वन्मुनिपुत्रकः ततः दीर्घमायुस्तदाप्रादाच्छुनः शेपाय वासवः स च राजानरश्रेष्ठयज्ञस्य च समाप्तवान् फलम् बहुगुणम् रामसहस्राक्षप्रसादजम् विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे इत्यार्षे श्रीमद्रामायणे बालकांडे दिवष्टितम सग